अत तृतीयाष्टः षष्टमप्रश्नप्रारम्भः अञ्जन्तित्वा मध्वरे देवयन्तः वनस्पते मधुना देव्येन यदोर्ध्वस्तिष्ठा द्रविणेह धत्तात् यद्वाक्षयो मातुरस्या उपस्थे उच्छ्रयस्ववनस्पते अश्मन् पृथिव्या अधि सुमिति वीयमानः मर्चोधा यज्ञवाहसे समिद्धस्य श्रयमाणः पुरस्तात् ब्रह्मवन्वानो अजरगम् सुवीरम् आरे अस्मदमतिम् बाधमानः उच्छ्रयः स्वमहते सौभगाय ऊर्ध्व ऊष्ण ऊतये इष्ठा देवो ऊर्ध्वो नः बाह्यगुम्हसोऽनिकेतुना विश्वगुंसमत्रिनन्दः कृधेन ऊर्ध्वान्तरथाय जीवसे विदा देवेषु नो दुवः जातो जायते सुदिनत्वेऽह्नाम् समर्य आविदथे वर्धमानः पुनन्ति धीरा अपसो मनीषा रेवया विप्रभुलिजर्ति वाचम् भवति युवा सुसात आगाति जायम गंधीरास कव उन्नय स्वाधिज मनस पृथुपजाक्यृतने्यक्सु अवह तगुंस बाधो यतस्रुच युत्थाधिज्ञवंत आचक्रुरग्निमूत त्वम् वरुण उत मित्रो अग्ने त्वाम् वर्धन्ति मतिभिर्वसिष्ठाः त्वेवसु सुषणानि सन्तो यूयम् पात स्वस्तिभिः सदानः होतायक्षदग्निगुम् समिधा सुषमिधा समिद्धन्नाभा पृथिव्याः सङ्गथे वामस्य वर्ष्मन्दिव इडस्त्वे कोतायक्षत्तनो न पातमदितेर्गर्भम् भुवनस्य गोपाम् मध्वाद्य देवो देवेभ्यो देवयानान् पथो अनक्तुवे त्वाज्यस्य होतर्गज होतालक्षन्नराशगम् सन्दृशस्त्रम् गृगः गोभिर्वपाभान् स्याद्दीनैः शक्तिभान् रथैः प्रथमया बाहिरण्यैश्चन्द्री वेत्त्वाज्यस्य होतर्यज तोतायक्षदग्निमिडगीडितो देवो देवागुम् आवक्षदुतो हव्यणमूनः उपेमल्यज्ञमुपेमाम् देवो देवहूतिमवतु वेत्त्वाजस्य होतर्यज ओदायक्षग्बर्हिः सुष्टरी मार्णम् रदा अस्मिन् यज्ञेऽपि च प्रचप्रचता विश्वासस्थन् देवेभ्यः ये मेन दद्यवसवो रुद्रा आदित्याः सदन्त प्रियमिन्द्रस्यास्तु वेत्वाद्यः स होतर्यज ओदायक्षग्दुररिष्वाः कवश्यो कोशधावने रुदाताभिर्जिहताम् विपक्षोऽभिः सुप्रायणा अस्मिन् यज्ञे विश्रयन्तामृता वृथो वियन्वाजस्य होतर्यज होता यक्ष दुषासानक्ता बृहती सुकेशसा नृगः पतिभ्यो योनिम् गृह्वाने इन्द्रेण देवैरेदम्बर्यीतताम् भीतामाज्यस्य होतर्यज होतायक्षद्दैव्या होतारा मन्द्रा पोतारा कविः प्रचेतसा शिष्टमद्यान्यः करदिशा स्वभिमन्य ऊर्जास तव सेवं यज्ञम् दिवि देवेभ्यो देवेर्देवमपो गुजम् त्वाज्यस्य होतर्यज होतायक्षत्वष्टारमचिष्टुमपाकलम् रेतोधाम् निःश्रपसंयशोधाम् पुररूपमकामकर्षणगम् सुपोषः पोषैः स्यात् सुवीरो वीरैर्मे त्वाज्यस्य होतर्यज होतायक्षत्वनस्पतिमुपावस्रक्षद्भियोजोष्टारगम् शशमन्नरः स्वदात्सधिथाद्य देवे देवो देवेभ्यो हव्याभाेत्वाद्यः सहो तर्यथा होता यक्षदग्निग्रस्वाहाद्यस्य स्वाहा मेदस स्वाहा सोतानाग स्वाहा स्वाहा कृतेनागस्वाहा हव्यसोक्तीनाम् स्वाहा देवागुम् आद्यपान् स्वाहाग्निगुम् होत्राज्युषाणा अग्न आद्यस्य वियन्तु होतर्यज समिद्धो अद्यमनुषो दुरोणे देवो देवाने यजसि जातवेदः आचवहमित्रमहश्चिकित्वान् त्वम् दोतः कविरसि प्रचेताः तनूनपात्पथयतस्य जानान् मध्वासमञ्जान् स्वदयासि विह्व मन्मानि धीभिरुतयज्ञमृन्धन् देवत्रा च कृणुह्यध्वरन्नः नराशगुंसस्य महिमानमेषाम् उपस्तोषामयज तस्य यज्ञैः ते सुकृतमश्वितयोधिगन्धाः स्वदन्तु हैवाग्रजानि हव्या आजुह्नयेड्यो वन्द्यश्च आयाग्ने वसुभिः सजोषाः त्वम् देवानामसि यः वहोताः स जैनान् यक्षीषितो यजीनान् प्राचीनम् बलह्यः प्रदिशा पृथिव्याः वस्तोरस्याविृज्यते अग्रे अह्नाः युप्रथये वितरम् वरीयः देवेभ्यो अदितये स्योनम् यतस्पतीरुर्विया विश्रयन्ता पतिभ्यो न जनयः शुम्भमानाः देवे बृहदेर्विश्वमिन्वाः देवेभ्यो भवथसु प्रायणाः आशुष्मयन्ति यजते उषासा नक्ता सदतान्योनौ दिव्ये योषणे बृहति सुरुक्मे अधिश्रियपुंशुक्रपि सन्दधाने दैव्या होतारा प्रथमा सुवाचा विमाना यज्ञम् अनुशो यजध्यै प्रचोदयन्ता विदथेषु कारु प्रतिशा दिशन्ता आनो यज्ञम् भारती इडामनुष्रदिह चेतयन्ती इस्रो देवीर्बर्हिरेदज्ञस्योऽनम् सरस्वती स्वरसः सदन्तो य इमे व्यावापृथिवी जनित्री रूपैरपिगुंसद्भुवनानि विश्वा तमद्यहोतरिषितो यजीजान् देवन्तुष्टारमिह यक्षि विद्वान् उपावसृजत्मन्यासमञ्जन् देवानाम् पाथरुतुथा हमीगुंषि वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यम् अधुना धृतेन सद्यो जातोऽ्यमिमीतयज्ञम् अग्निर्देवानामभवत्पुरोगाः अस्य होतुः प्रतिश्रितस्य वाचि स्वाहाकृतगम् हविरदन्तु वाजे सन् परिणीयते देवो देवेषु यज्ञयः परित्रिविष्ट्यध्वरम् यात्यग्निरथेरिव आ देवेषु प्रयोदधत् परिवाचपतिः कविः अग्निर्हव्यान्यक्रमे च दधद्रत्रानि दाशुषे अजैदग्निः अस नद्वा जनि देवो देवेभ्यो हव्यावाड् प्राञ्जोभिर्हिम्बानः धेनाभिः कल्पमानः यज्ञस्यायुः प्रतिगन् उपप्रेष्य होतः हव्या देवेभ्यः देव्याशमितार उतमनुष्या आरभध्वम् उपनयतमेध्यादुरः आशासानामेघपतिभ्याम् मेघम् स्मा अग्निम् भरत स्त्रेतबर्हिः अन्देनम् माता मन्यता अनुपिता अनुभ्राता स गर्भ्यः अनुसखासजोऽर्थ्यः उदेशे नागम् अस्य पदोनिधत्तात् सौर्यम् चक्षर्गमयतात् पातम् प्राणमन्वपसृजतात् विषश्रोत्रम् अन्तरिक्षमसम् पृथिवीगम् शरीरम् एकधा स्यत्वचमाच्छ्यतात् पुराणाद्या अपि शसो शनादोषणी अन्तरेवोष्माणम् वारयतात् श्येरमस्य अच्छिद्रे श्रोणी अवशोरूस्रेकपर्णाष्ठीवन्ताः षड्विगुंशतिरस्य वङ्क्रजः ता अनुष्ठ्योच्यावजतात् गात्रम् गात्रमस्या नूनम् कृणुतात् भूमध्यगोहम् पार्थिवङ्खणतात् अस्मारक्षः सगुंसृजतात् अनिष्ठुमस्य मादाविष्ट पुलोकम् मन्यमानाः नेद्वस्तु केतनये प्रवितारवच्छमितारः अध्रिगो शमेध्वम् सुशमिशमेध्वम् शमेध्वमध्रिगो अध्रिगुश्चापापश्च उभौ देवानागुंशमितारो तामिमम् अशग्दश्रपजताम् प्रविद्वागुंसो यथा यथा स्यश्रवणम् तथा तथा जुषस्व सप्रथस्तमम् वचो देवप्सरस्तमम् हव्याजिह्वान आसणि इमन्नो यज्ञममृतेषु धेहि इमा हव्याजातवेदो जुषस्व स्तोकानामग्ने मेधसो घृतस्य होतः प्राशादः प्रथमो निषद्य घृतवन्तः पावगते स्तोकाश्चोतन्ति मेधसः स्वधर्मम् देववीतये श्रेष्ठन्नो देहिवार्यम् अभ्यर्गस्तोकाघृतश्चुतः अग्ने विप्राय प्राविता अग्नेप्रासंष्रेष्ठ से यहातंोशीव स्वकासो अग्नेेदसो घृत कलिशस्ो बृहदा भागा आह हव्याजुष मेधिरा ओजिषं दे मध्यको मेध उभृतमहे ोतंति देवसो स्तोचि प्रदितांदो भी आवृत्रहण सुंद्रजात नमो भिग्नेवाकुवगुमराधोभिरकंद्र अने अस्मेत मुताक्षगस्वे दस जुषेता गौतर्यजा निह्यक्षन्मनसा वस्यदिच्छन् इन्द्राज्ञे न्यास उटवासजातान् नान्यायुपत्प्रमतिरस्ति मह्यम् स वान्धिरम् वाजयन्ती मतक्षम् होता यक्षदिन्द्राज्ञे प्रोडाशस्य दुषेतागम् हविः होतर्यज त्वामीडते अतिरन्धोद्याय अविष्पन्तः सदमिन्मानुषा अहा येरासद बर्रग्ने अहान्यस्म सुदिरा हौतायक्षाश्य दुषतागं हौदरजताे प्रमतिमाेट्ठेज यशसभाज इंद्राग्नेहणा सुव्र रण न्ये स्त्मे च्छेग्मरश्मेगम् रतिनाथमानाः विरणागम् शक्तेरनुज्छमानाः इन्द्राग्निभ्याङ्कम् वृषणा मदन्ति ताह्यग्रीधिषणायावस्थे अग्निगुम् सुदीतिगम् सुदृशम् गृणन्तः नमस्यामस्तेऽव्यञ्जातवेदः त्वान्दोतमरतिगम् हव्यवाहम् देवा अकृण्वन्नमृतस्य नाभिम् त्वर्गेह्यग्ने प्रथमो मनोता अस्याधिजो अभवोदस्महोता त्वपुंसेयम् वृषन्नकर्णार्दुष्टरेत सहो विश्वस्मै सहसे सहध्यै अधा होतान्यसीदो जीजान् इडस्पद इषजन्येड्यः सन् तन् महोराजे चितजन्तो अनुग्मन् मृदे भजन्तम् बहुभिर्वसव्यैः त्वे रजिञ्जाग्रिवागुंसो अनुग्मन् रुषन्तमग्निन्दर्शतम् बृहन्तम् वपावन्तम् विश्वहादिवागुंसम् पदम् देवस्य नमसा विजन्तः श्रवस्य वश्रव आपन्नवृत्तम् नावादिचिद्दधिरे यज्ञयादि भद्राजान्तैरणयन्तसन्दृष्टो त्वाम् वर्धम् दिक्षितयः पृथिव्याम् त्वम् राज उभजासो जनानाम् त्वम् त्रातातरणे चेत्यो भोः पिता माता सदमिन्मानुषाणाम् सपर्येण्यः स प्रियो विश्वग्निः होतामन्द्राविषसादायजीजान् पन्द्वा भजन्तम आदि दिवागुंसम् उपज्ञुबाधो नमसासतेमा, सदेम अन्त्वा भजगुम् सुधियो नव्यमग्ने सुजव महे देवजन्तः त्वम् विशो अनयो दीद्यानः दिवो अग्ने बृहता रोचनेन विषाङ्गविम् विस्पतिगुं शस्वतीनाम् विदोषणम् वृषभञ्चर्षणीनाम् त्रेतीषणि विषयन्तम् पावकम् राजन्तमग्निङ्गजतगुम् सो अग्नज श आन स्यति आहुतिम पे वेद नमो विश्वत्त्त्त्त्त्त्त्त्त्सवा दोत महि महे विधेमा नमो भीरग्ने सधोत हईदी सो नोसह सो गीर्थ आते भद्रायागुंसुम ये आयस्तंथरोदी श्रविभ्रवश्य स्तरु बृहद्भिवाज स्थास्मे रे रेब्भिनेतरम विभा बृवदिध्ये हस् भूरि तो कायतन जाय पश्व पूर्व बृहती रेअ अस् भद्राजो श्रभा सो पुराण्यग्ने पुरुधात्वाजा वसूनिराजन्वसुता ते अस्याम् पुरोणि हित्वे पुरवारसन्ति अग्ने वसुविधते राजनित्वे आभरतकम् शिक्षतम् वज्रवाहो अस्मादुम् इन्द्राग्नी अलतपुम् शचीभिः इमेऽनुते रश्मजः सौर्यस्य तेभिः स रित्वम् होता यक्षिन्द्राग्ने छागस्य हविष आत्ता मध्यतो मेद उद्भृतम् पुरा द्वेषो अभ्यः पुरा पौरुषेय्यायुभः धस्ता आन्धूनम् घासे अज्राणाय्यवसप्रथमानाम् स्वत्क्षराणागम् शतरुद्रियाणाम् अग्निष्वात्तानाम् पीपोपवसनानाम् पार्श्वतश्रोणितसिता मत उत्सादतः अङ्गादङ्गादवत्तानाम् करत एवेन्द्राग्नी जुषेता गुम् हविः हो गर्यज देवेभ्यो वनस्पते हवे गुंषि हिरण्यवर्णप्रदिवस्ते अर्थम् प्रदक्षिणे दर्शनजा होदायक्षद्वनस्पतिमभिः पिष्टतमजारभिष्ठयारशनयाधिता यत्रेरेन्द्राग्निजोच्छादस्य हर्षः प्रिजाधामानि यत्र वनस्पतेः प्रजापाथांसि यत्र देवानामाजमानाम् प्रिजाधामानि यत्राग्नेर्होतः प्रिजाधामानि तत्रैतम् प्रस्तुत्येवोपस्तुत्येवोपावस्रक्षज रभीजागुम् समिव कृत्वी करदेवम् देवो वनस्पतिः जुषतागुम् हविः होतर्यज विप्रेहि देवागुम् उशतो जिष्ठ विद्वागुम्हृतोगुम् रहृतवते गजेह ये देव्या हृत्तिजस्तेऽभिरग्ने त्वगुम् होतृणामस्याजिष्ठः होता यक्षदग्निग्रष्टकृतम् अजाडग्निरिन्द्राग्निजोश्छादस्य हविषः प्रिजाधामानि अजाड्वनस्पतेः प्रिजापाथांसि अजाड्देवानामाज्यपानाम् प्रिजाधामानि यक्षदग्नेर्होतुः प्रजाधामानि यक्षत्स्वम् महिमानम् आजदतामेध्यायषः कृणोतु सो अध्वरा जातवेदाः द्विषतागुम्हविः हो तर्गत उपोहयद्विदधम् वाजिनोगोः गेर्भिर्विप्राः दे क्रमदिमिक्षमानाः अर्वन्तो न काष्ठान्नक्षमाणाः इन्द्राग्नेजोहुपतो नरस्ते वनस्पतेरशनयभिधाय पिष्टतमज भजनानि वहरे भद्रादिषो हवे गुंषे प्रचदाता रमृतेष वोचः अग्निज्ञः स्पृष्टकृतम् अजाडग्निरिन्द्राग्निजोश्गस्य हविषः प्रिया धामानि अजाड् वनस्पतेः प्रियापाथागुंसि अजाड्देवानामाज्यपानाम् प्रिजाधामानि यक्षदग्नेरुहोदः प्रिजाधामानि यक्षत्व महिमा आयजता मे ज्याषण सो अध्रा जातवेदा जिषकागंह अग्ने गश अधर से हौता पापकशौचेगंज्वातायजासी मिनाजो कव्या अद्य एवम् बर्हिः सुदेवम् देवैः स्यात्सुवीरम् वीरैर्वस्तर्वृज्येताक्तोः प्रभ्रिजेतात्यन्यान् राजा बर्हिष्मतोमदेव वसुवने वसुधेजस्य वेतुगज देवेर्दारः सङ्घाते विड्वेर्यामञ्छिथिरा ध्रुवा देवहूतो वत्सयी मे नास्तरुण आमिमी जात्कुमारो वा नवजातो मयि नार्वा रेणुककाटः प्रणग् वसुवने वसुधेजस्य मिलम् त्वयजा देवी शहासानक्ताद्यास्मिन् यज्ञे प्रयत्यः पेतामपि दोनङ्गे देर्विसः प्राजासिष्टागुंसुप्रीते सुधिते सुवने वसुधेयस्य वीताङ्गज देवीजोष्ट्रे वसुधिते यजोरन्याघाद्वेषागुंसि युजवदान्यावक्षद्वसुवार्याणि यजमानाय वसुवने वसुधेयस्य वीताङ्गज देवी ओर्जाहुति इष मोर्जमन्या वाक्षात्साध्यगुंसपीति मन्या मे नकोर्वन्दयमानास्याम पुराणेन न भवन्तामोर्जमोर्जाहुति ओर्जयमाने दधाताम् मुदसुवने देवादयी व्याहोता नेष्टारापोतारा हता घुंसा वा देवीस्तिस्रस्तिस्रो देवीरिडा सरस्वती भारतीव्याम् भारत्याधिक्तेरस्पृक्षत्सरस्वतीमगम् रुद्रैर्यज्ञमा वेदिहैवेटया वसुमत्या सुधमादम्बदे वसुवने वसुधेयस्य वियन्तु यच ेवो नराशकुम्सृशीर्षा षडक्षः शतमिजेन पृष्ठा आदधति सहस्रमीम् प्रवहन्ति ेव वनस्पतिर्भर्ष प्राभाघृतनिर्निद्यामध्येणास्पृक्षदान्तरिक्षम् मध्ये एवम् बर्हिर्वारितीनाम् विधेधासिक् प्रच्युतीनामप्रच्युतम् निमधरणम् पुरस्तारहञ्यशस्वधेन बर्हि शान्या बर्हे गश्यभिष्यामपुसुवने वसुधेयस्य वेतुगज देवो अग्ने स्विष्टकृत् सुद्रविडा मन्द्रः कविः सत्यमन्माजि होताहोतुर्होतुरागजी जानग्नेयान् देवानजाड्यागुम् अपि प्रेर्येते होत्रे अमत्स तागुम् सरशीगम् होत्रागमाङ्गेवेषु यज्ञमे रजेमग्नस्पृष्टकृच्चाग्ने होताभोर्वसुवने वसुधेजस्य नमोपाके वीहि देवम् बलिः वसुवने वसुधेजस्य वेदो देवेर्द्वारः वसुवने वसुधेयस्य वियन्तु देवी उषासानक्ता वसुवने वसुधेजस्य बीताम् देवीजोष्ट्री वसुवने वसुधेजस्य बीताम् देवी ऊर्जाहुती वसुवने वसुधेजस्य वीताम् देवादेव्या होतारा वसुवने वसुधेयस्य वीताम् देवीस्तिस्रस्तिस्रो देवीः वसुवने वसुधेयस्य विजन्तो देवो न राशकंसः वसुवने वसुधेयस्य वेतो देवो वनस्पतिः वसुवने वसुधेयस्य वेतो देवम् बर्हिर्बारितीनाम् वसुवने वसुधेयस्य वेतो देवो अग्निः सृष्टकृत् स्वद्रविणा मन्द्रः कविः सत्यमन्मा जजीहोता होतुर्होतुराजीजान् देवान देवानजाट् यागुम् अपिप्रेह येते होत्रे अमत्सता तागं स संषेगुम् होत्राम् देवम् गमाम् गिरिदेवेषु यज्ञमे सृष्टकृच्चाग्ने होदा भोः वसुवने वसुधेयश्च नमो वागेवीः अग्निमद्य होता हो नमवृणीतायम् अग्नि गजमानः पचन् भक्तेः पचन् परोणाशम् भद्रम् निमिराग्निभ्याच्छागगम् सोपस्था अद्य देवो वनस्पतिरभवदिन्द्राग्निभ्याच्छागेनाघस्त न्तं मेधस्तः प्रतिपचताग्रभेताम् पुरोणाशेनतामद्यर्ष आर्षे जर्षेणान्नपादवृणीकायमानो बहुभ्य आसङ्गतेभ्य एष मे देवेषु वसुवार्यायक्ष्यत इति ताजा देवा देवतादुस्तान्यस्माच स्वा च गुरस्वेतश्च भद्रवाच्याय ्रूहि हरिः ओ इति तृतीयाष्टः षष्टमः प्रश्नः समाप्तः